Om oh. Jagatasa kyestha nayadagnas sandatya avicchedade indra pasavoye maskaradate indra santodnibhyalam sande devata धाद्यानुवाक्याः कुरुस्तेनाः ज्ञेदाय दृष्टभस्तेन इन्द्रा समृद्धेन देवताः भस्समदं दधाति वायवे नियत्वते तु वनमालभते तेजो ग्निर्देव तद्वैकोन्मेयुत्व भवतस्य गर्भ समवर्तताघारमाघारयते प्रजापदर्वैहि प्रजापतेरण र्वाणि वारेषुणस्तत्कुरुषानागुं रूपं जप्तोपरस्तदश्वानाङ्गोभं तद्गवाञ्जतमुजादिनाङ्गस्तनां वाजुर्वैवशूनां प्रियं धामजद्वाजं यो भवत्येतमेवै नमभिसञ्जानाक्वशव उपतिष्ठन् दे ज्वाल Ah, uh, no. जं गुरुयात् प्रजापतेरिजाद्य प्राजापत्यं गुरुयाद्वायोद्वादौ पशुर्भवति तेन वायोजोर्नैति यद्वाजापत्यः पुरोडाशोभवति तेन प्रजापतेर्नैतद्वादशवानस्तेन वैश्वानरान्नैत्या gnarava ma devata nam vishnu parama yada वैष्णवमेकादशकपालं चो भजतः परिगृह्यमानो वरुन्धे पुरोडासेन वै देवामुष्मिन्लोकारुणास्मिन् यः कामजेतामुष्मिन्लोकरुध्वनुजामि दि स पुरोडाशं गुरुमीतामुष्मिन्नेव लोकरुध्वाज यदष्टाकपालस्तेनाग्त्रिकपालस्तेन वैष्णवसाध्ये यामजेतास्मिन् लोकरुध्वजामि दि सचरुं गुर्वीद ष्णोस्तण्डुरास्तस्माचरुः कार्योऽस्मिन्नेव भवति अस्यामेवारितिष्ठमेवाधिजज्ञमभृत्वाग्निंसाते दादृद्वानरं पुरस्तात् संवत्सरो वा येष्वानरोदधा संवत्सल माम् त्वाकाल आगते विजालन देवमेव संवत्सल माम् त्वाकाल आगते व्यञ्जनधेनार्तिमार्चद्देशा वा अग्ने पिडामेवाश्च तनुभवरुन्धे त्रीण्येदानि हवेशं शिभवम् तित्रयति मे लोकानेशान् लोकानागुमरोहाय प्रजापतिः प्रजा सृष्ट्वा प्रेणानुप्रापि सत्ताभ्यः पुनः सम्भवितुं नाश्रवेत्सञ्चिनस्य चित्रत्वं इत्याहुर्देवा मामेतन्निदिवाग्निश्चेजते विदुरेन देवाः कस्मैकमग्निश्चेजत इत्याहुर्गृह्य सा निवाग्निश्चेजते गृह्येव ेवै न मम स्मृल्लोक उपजीवन्ति प्रजापतिरग्निमचिकेश तं यज्ञं चत्वानामिष्ये सपाबी भविष्यसीति सोब्रमे तथा वा अहं करिष्यामि यथा त्वाधक्ष्यते सिमामभ्यमृषत् प्रजापति स्वासा देवमामेवेष्टगाङ्घ्रिपोपाधत्ता ेष्टकां धृत्वेन प्रजापदकामज प्रजामपश्य संवत्सरमभिस्ततोसरं भार्य प्रीमजाले वसवो ब्रुवं वृत्तमजनिष्ठावजं प्रजायामहाविं वसव भ्यः प्रायच्छत्तं त्रेण्यः विभरुस्तेन त्रेण च शतान्यसृजन् द्रयस्त्रिविंशतं च तस्मात्रैव जायते रुद्राभ्यं भजं व्रजायामः ऋजतगं रुद्रेभ्यः प्रायच्छन्द षडहान्यभरुस्तेनत्रेण च शतान्यसृजन्दायस्त्रविंशतं च तस्माहं भारुजव्रैवजायते तानादित्या अब्रवन् प्रयोजम् प्राजन्तम् द्वादशाहान्यभिस्तेनसृगुम् चादशाहम्भार्यः प्रैवजायते न वेदे सहस्रम् असृजम् दोखागुम् सहस्रतमीञ्जयेव मुक्षगुम् वेदग्रहस्रम् वसूनाप्नोति चजुषा वादेशाक्रियते चजुषा पत्स्यते चजुषा विमृश्यते चतुःखा वादेशेत्याहुरग्ने युक्ष्वाहिजे तवक्ष्वाहिदे वहूदमायुङ्तयां नेयो वा अग्नियोगागते जुनक्तियुङ्जानेष्वग्ने युक्ष्वाहिदे तव युक्ष्वाहि अग्नेरिजोगस्तेनैवजनग्जम् पेजुञ्जाने शूरं भवादिनोपदन्तिग्निश्चेतुर्या ृष्ठस्य भवति सौर्याचक्षुरेवास्मिन् चक्षुषे समान्याजुहोदिषमानगुं ति चक्षुर्सेवा न्यदध दधद्देवा वामभृता वृन्द तद्वामभृतो वामभृद्मै यद्वामभृतमुपदधाति वाममेवामसुजमानो भ्रातिर्विलस्य वृन्दे हिरण्यमूर्ध्ने भवति ज्योतिर्वै आपो वरुणस्य पद्नय आसन्ताग्निरभ्य ध्यादत्ता समभवत्तस्य रेतः परापदत्तदियमभवद्यद्वितीयम् परापदत्तदसावभवदियम् मे विराटसौ स्वराज्ञद्विराजावपदधाति मे एवोपधत्ते यद्वा असौ रेतस्सिं च्याम्प्रतिष्ठति तत्प्रजायते नावोषधजो विरुधो भवन्ति राजदेवं वेद ित् उपदध्यादिमेवास्मे समीचीरे तस्य प्रथमायान्त्यामुपदध्यादुत्तमायामन्यागुमरेतदेवास्यसिक्तमाभ्यां भजतः प्रत्यरोहतस्तदेन चलुतेषा मुष्मल्लोगे भवति जस्त्रशीरुषाणेष्मन्लोगे भवति चित्रञ्जुसा देवाजिहायजुहोदन्वाग्ने शिरस्य शीरुषाणमेवाग्शीरुषामुष्मन्लो यथा पूर्वं सुवर्ग्यमस्याश्चितिमुपधाजाभिञ्चन विद्वान् पृष्ठे अपवेदावृजना च मत्या स्वादिति मरुष्येति यथा पूर्वमेवैनामुपध्ते विश्वकर्मादिशां वदिस्वनः पशोऽन् पादसोः स्मान् पाद तस्मै नमः प्रजापते रुद्रो वरुणोऽर्दिशां वदिस्सनः पशोऽन्पादसोस्मान् पाद तस्मै नमजेता वै देवताजय तेषां पशोनामधिपदजस्ताभ्यो वादेशावृश्च ते जः पशुशीर्षाण्यपदथाभिहिन्येष्टका चेताभ्यजेव देवताभ्यो नमस्करो ग्नौ ग्राम्यान् पशुवान् प्रदधाति धाय यानेनैव समर्धयत्यसोः प्राणेनैवन्धे भोद्भुवः स्वजमातृण्णामुपदधा रे वैगास्वज मातृण्णाः खलु वै विहृतेभ्यः प्रजापतिः प्राजायदेव्याहृदेभ्यः स्वजमातृण्णामुपदधा देम लोकानुपधादेश लोकेश्वर्गं लोकमधितेन पतितुं नाशक्नुवन्तश्चतस्रस्वय मातृण्णा अपश्यन्ता दिक्षोपदथ तेन सर्वतश्चक्षुषा स्वर्गं लोकमायश्चतस्रस्वय मातृण्णा दिक्षोपथा श्चक्षुषैव तदग्निना यजमानस्तु वर्गंति आज्ञा आयाहि वेतदयित्याहाह्वदैव भग्नं दोतं वृणेमहयिताहोत्वैवैनं ष्टायां नेलोकं प्रणयत्यैस्पत्यं रो च हि देवायां बृहस्पतिश्चाजातयामानोऽनुचरपदे भवत्यजामित्मायानुष्टुभानुचरत्यात्मा वैलोकं वृणा प्राणोऽनुष्टुप्तस्मात् प्राणः सर्वाण्यङ्गान्यनुचलदिता अस्त्रसूदतो स्मात् परुषि परुषिरसस्सोमग्निश्रीणं दिवस्न जित्यां वै पुस्नन्नमे वा वरुन्धे वाग्निरर्गोन्नमन्नमे वा वरुन्धे जन्मं देवानां विषस् त्रिष्वारोचने दिवजित्याहे माने वास्मि योगान् ज्योतिष्मदः करोधिजोष्टकानां प्रतिष्ठां वेदप्रत्ययिक्षादेव तजाङ्गिरस्वध्युवासि देवत्याहैषा वायिष्टकानाम् निर्धारनेवं मेलप्लब्देव सुवर्गाय मारेश लोकाय चीयते यदग्निर्वज्र एकादशिने यदग्नावेकादशिनी वज्रेण सुवर्गाल्लोकादं वर्दध्याद्यभि पशोम्यर्थजयदेकोपैलं वज्रेण सुवर्गाल्लोकादं तर्दधाति न स्वलभिः पशोन्यवारेश इन्द्रियेण वीर्येण रुद्रोवादेशस्तस्य नो चेता ब्राह्मणा नमस्करोतां भजेवात्मानं निष्प्रीणेते यत्नेन पुरोतनुस्तन्वादो अनुवादते तस्मै ते रुद्रसंवत्सरेण नमस्करो मियत्ते रुद्र दक्षिणाधनुस्तद्वातो अनुवादते तस्मै ते रुद्रपरिवत्सरेण नमस्करो मयत्ते रुद्र पश्चाधनुस्तद्वातो अनुवादुते तस्मै ते रुद्रे धावत्सरेण नमस्करो मियत्ते रुद्रोत्तराधनस्तद्वातो अनुवादुते तस्मै ते रुद्रे दुवत्सरेण नमस्करो मियत्ते रुद्रो परिधनुस्तद्वातो अनुवादुते तस्मै ते रुद्रोस्था नमस्कारैरेवैरम् शमजतिजः पुरीश्याः प्रविष्टाः पृथिवी मनो येषां तमस्योत्तमः प्रणो जीवादु वा पन्त्वाग्ने मनसा पन्त्वाग्ने तपसा पन्त्वाग्नेक्षयापन्त्वाग्नवपसद्भिरापन्त्वाग्ने्यजा पन्त्वाग्ने दक्षिणाभिरापन्त्वाग्ने वभुचनापन्त्वाग्ने वशजापन्त्वाग्ने सगाकारेणैषा वा अग्नेराप्तिस्तयैवै नमाप्नोति यप्रेण पुरस्तादुपतिष्ठते प्राणमेवास्मिन् दधाति बृहद्रथं तराभ्याम् पक्षा वोचदेवास्मिन् दधातिथायज्ञायज्ञानिवास्मिं दधातिरवन्ति जैनावारय तद्वारवन्ते तस्य वारवन् ैतेनस्यैतद्वारवं ते जयमापतिष्ठतेन त्वादिशादजामि कागत्रेण छन्दसाग्निग्ने श्रीकृष्णाग्ने श्री रघुपदधामि दक्षिणजा त्वादिशा सा दजामित्रेष्टभे छन्दसेन्द्रेण देवदजाग्ने पक्षेणाग्ने पक्षमुप दधामि प्रतीच्याः त्वादिशा सा दजामि जागते न छन्दसा च मित्रा देवदजाज्ञे पुच्छेनाग्ने पुमुपदधामि दीच्या त्वा दिशा सादयामानुष्टुभेन छन्दसा मित्रा वरुणाभ्यां देवदयाज्ञे पक्षेणाग्ने पक्षमुपदधाम्यूर्ध्वजाः त्वादिशा सादयामि पाङ्गेन अग्नवदधे जातकिशोरयुवाना मतजानो मृणतस्यास्तेनमस्तस्यास्तौवं द्वौ भूयास्माशवाण्यजात ुदेजार्तिमार्छत्रजुर्न यजमानो वाणो श्रोत्रं बाहुवोर्बलमुर्भोरोजोरिष्टाविश्वाण्यङ्गानि तनोस्तनु वामे नमस्ते अस्तु मामासिगुंसे न त्तेजो रुद्रो अग्नौ यो अब्सुयवोषधेषद्रो विश्वा भुवना विमेश तस्मै रुद्राजनमो अस्वाहुदिभागा वा अन्ये रुद्राहविद्भागा अन्येषतरुद्रे जगु हुत्वागागं च नुमेतेन विदुषा च पुरस्ताक्षिणश्वे देवैः पश्चात्पाहं दुद्युता नस्त्वा मारुतो मरुद्भिरुत्तरतः देवास्त्वेन्द्रेच्छा वरुणराजानो धस्ताः सोपरिष्टाः च बान्धु न भूतो न मेध्यो न प्रोक्षितो न मतः समेचेनामासित् प्राचेदिक्तस्यास्तेग्तो रक्षितायश्चाधिपदश्च दक्षिणादिक्तस्यास्त्रोऽधिपतिः प्रदातुः प्राचेनामासित् प्रदेचेदिक्तस्यास्ते सोमोऽधिपतिः स्वजोऽवस्थावा नामासुदे चेदिक्तस्य स्थिरश्च रारधिपत्नी नामाधिपतिरधिपतिश्वित्रोल्माषग्रीवारक्षिताश्चाधिपतिर्विजश्च गोप्रादाभ्यान्नमस्तो नो मृणयतां ते जन्विष्मो यश्चेदधां ये तावेदाक्षन्ताहुदे क्षिणा वैशवस्य गणो वज्रणो नाम स्थदेशास्वप्नो वैषवो गह्व ुत्तरा गृहा वैषवः समुद्रोऽधिपतजो नाम स्थलेषां बहु परिगृहा वरुषं वैषवो वस्वान् क्रविजा नाम स्थपास्तेषां वैषग्रान्नं वैषवो नमस्ते नो विडयदाय विष्णोश्वतं भोजं भेदधामि हुतादो वा अन्ये ष्टुहोत्यस्तनमोर्जस्वम् शरीरस्य मध्ये उत्सञ्जुषस्व मधुमन्तमोर्वसमुद्रिजगम् सदनमाविशस्व यो वा अग्निं रजन विमुञ्चते यथा युक्तो विमुच्यमात्यस्वन्दया पामित्याज्यस्य पूर्णा विसृचन्दुहोत्येष वा अग्नेर्विमोगो विमुश्यैवा स्मपि दधाहुर्यैवं वेदयश्च न सुधा भवै वाजीतार्वावमेव लत्प्रेण दिसजनम् प्रेतः प्रेणा दिवसेजान् भवते। इंद्राजलाने वर्णाजलानेणोराजराज शाहाजराषराज मकटंगो कृम सोम से राजुंग सिंधो श्रीं सु हिमवत हस्ती युः प्राया वद्यभूलोहले एक्ष्मा वृषदगुंशस्ते धातुः सरस्वीशारिश्चेता पुरुषवा सरस्वते जो न कुलश्च काचे पौष्णा वाचे क्रौञ्चः अवान्नत्रे दशोणाक्रोमगनः कुलेकयस्ते गोपालस्य वाचे वैरीङ्गराजो भगानकुशेतकः देवासोदर्विता देवा बलाजगलाघुश्रिजण्डकस्ते मेत्रामृत्य वे सुतो मन्यवेजः कुम्भेन सत्पुष्णसादो लोहिता हिस्ते त्वाष्ट्राः प्रतिश्रुत्का देवाहसः पुरुषमृगश्चन्द्रमस गोधाकालकादारुवाघ्याटस्ते वनस्पतीनामेण्यम् हे कृष्णो राज्ञे भिरः सौरे बलाकश्वा मयूरश्येनस्तेगम् धर्वाणाम् वसूनाम् कपिञ्जलो रुद्राणाः तिरोहित्कुण्डनाजे गोलक्तिखाता अप्सरसामरण्यादसर्वरः ोऽन्यः कशस्तेन मत्याौ हस्ते बाल्यैरस्मतदेशित्पुटः कः कसौ माञ्चेदवस्ते पितृणाम्नाञ्जहकासंरत्सराजलोपा कपोतबुलोकशस्तेनैरजतासा वित्रः शकुनिश्चिप्पकादे शरंजाये हरिणो भारतो ब्रह्मणेशाक्षः कृष्णस्वाचत रक्षो गन्धभस्तरजनानामग्नन्तरिक्षमुद्रो मग्भस्ते वामदितेहगुससान्ध्रुतिकक्षे वाणसस्ते दिव्याद्या वा पृथिव्याः स्वावि स्वर्णः वा जन्या हगुंसो मृगोपषदगुंसस्त ऐन्द्र अवामुद्रोर्यम्ने लोपाशस्रुगुम्भो न गुरो याघ्रस्ते महेन्द्राय या ज्ञेयः कृष्णग्रेवः सारस्वदेवेषु सौम्यः पौष्णः श्यामश्चि पृष्ठो शिल्पो वैश्व देव पेत्वः हर्श्वस्थोपरोगौ मृगस्थे प्राजापत्या आहारेदौ कृष्णग्रीभौ त्वाष्टौ लो मसक्थौ श्रीकृत्यौ धात्रे मृषो धरः सौरुज अग्नदेकपते रोहिताञ्जलग्वानधो रामौ सावित्रौ पौष्णौ रजतनाभीश्वरेषङ्गौतो परो मारुतः कल्माषाग्नेजः कृष्णो यः सारस्वती मेषे वारुणः कृष्णजे भो